गरुडपुराणम् आचारकाण्डम् अध्यायम् 161 अण्ड् सिक्स्टी वन् धन्वन्तरिरुवाच उदराणाम् निधानञ्च वक्ष्ये शुश्रुततच्छृणो प्रोगा सर्वेऽपि सुदरामुदराणि तु अनीर्णामयाश्चाप्यन्ये जायन्ते मलसं ऊर्ध्वाधो वायवो रुध्वा व्याकुला विप्रवाहिणी प्राणानपानान् सन्दोष्य कुर्युस्तान् मां ससन्धिगान् आत्माप्य कुक्षिमुदरमष्टधातेजभेदः पृथग्दोषै समस्तौश्च प्लीहवंक्ष क्षादोदैः तेनाता श्युष्कताल्वोष्टा सर्वपादकरोदराः नष्टचेष्टबलाहार कृतप्रध्मात् कुक्षयः पुरुषा स्युप्रदरूपा भाविनस्तस्य लक्षणम् क्षुन्नास्योरुचिवत् सर्वं सविदा कञ्च पच्यते जीर्णान्नं यो नजानादि सोपध्यं सेवते नरः क्षीयते बलमङ्गस्य श्वसित्यल्पो विचेष्टितः विषयावृत्तिबुद्धिश्च शोकशोषादयोऽपि च रुग्दस्ति सन्धौ सतदं लघ्वल्प भोजनैरपि जराजीर्णो बलभ्रंशो भवेज्जररोगिणः स्वतन्त्रतन्त्रालसदा मलः सर्गोल्पवह्निना दाहस्व यधुराध्मानमन्त्रे सलिलसम्भवे सर्वत्र तोये मरणं शोचनं तत्र निष्फलम् गवाक्षवचिराजालैरुदरं गुड् गुडायदे नाभिमन्त्रश्च विष्टभ्यवेगं कृत्वा प्रणश्यदि मारुदे हृत्कडीनाभि पायुवङ्क्षणवेदनाः सशब्दो निःसरेद्वायुर्वहदे मूत्रमल्पकम् नाधिमात्रं भवेल्लौल्यं नरस्य विरः सम्मुखं तत्रा वादोदरे शोद्धपाणिपान्मुखकुक्षिषु कुक्षिपार्श्वो दरकडीपृष्ठरुक्पर्वभनं शुष्ककास्साङ्गमर्दाधो गुरुतामलसङ्ग्रहः श्यामारुणत्ववादित्वं मुखे च रसवर्धिता सदोतभेदमुदरं नीलकृष्णशिरातम् आत्मादमुदरे शब्दमद्भुतं वा करोदि सः वायुश्चात्र सरुच्छब्दं विधदे सर्वधागतिम् पित्तोदरे ज्वरो मूर्च्छा दाहित्वं कडुकास्यदा भ्रमोदिसारः पीदत्वम् भ्रमोदिसारः पीतत्वं त्वगादा उदरं हरित पीतताम्रशिरादित्वं सस्वेदं सौष्मदह्यते धूमायते मृदुस्पर्शं क्षैप्रपागम् प्रदूयते श्लेश्मोदरेषु सदनं स्वेदश्व यधुगौरवं निद्राक्लेशोरुचिष्वा सकाशुक्लत्वगादिदा उदरं तिमिरं स्निग्धं शुक्लकृष्णशिरावृतं नीरादिवृद्धौ कठिनं शीतस्पर्शं गुरुस्तिरं त्रिदोषकोपेन तैस्तैस्त्रिदोषजीनैस्तर्मलैः सर्वदूषणदुष्टाश्च सरकृ सञ्चितामलाः कोष्टं प्राप्य विकुर्वाणाशोषमूर्च्छाभ्रमन्विधं कुरु स्त्रिलिङ्गमुदरं शीघ्रभागं सुदारुणं वर्धते तच्च सुतराम् अत्य शीतवादप्रदर्शने अत्यशना च सङ्क्षोभाध्यानपानादिचेष्टितैः अवि हितैश्च पानाद्यैर्वमनव्याधिकर्षणैः वामपार्श्वास्थितप्लीहात्युतस्थानो विवर्धतः शोनिताद्वारसादिभ्यो विवृद्धो जनये द्व्यधां सोष्ठीलाचादिकठिनप्रोन्नतकूर्म पृष्ठवद क्रमेण वर्धमानश्च बुक्षौ व्यादधिमाहरेद श्वासकास्स पिपासास्य वैरस्याधमानकज्वरैः पाण्डुत्वमूर्च्छाच्छर्दिक्त्व दासमोहैश्च संयुधः अरुणाभं विचित्राभमिदहरिद्रराजितम् उदावर्तनजानाह मोहतृगहनज्वरैः गौरवारुचिकाठिन्यैर्विकादभ्रमसङ्क्रमाद प्लीहवद्दक्षिणात् पार्श्वा कुर्याद्य पार्श्वात्कुर्याद्यकृतविच्युतं पक्वे भूदे यकृति च सदा बद्धमलोगुदे दुर्नामभिरुदा वर्तैरन्यैर्वा पीडितो भवेद वर्षपित्तकपान् बद्धान् करोधि कुपितोऽनिलः अपानो जठरे तेन संवृद्धो ज्वररुक्करः काश्वासोरु सद्गणं शिरोरुङ्गा शिरोरुङ्गाभिपार्श्वरुक मलासङ्गोरुचि छर्दिरुदरे मलमारुदः स्थिरमीलारुणशिराजलैरुदरावृतं नाभेरु परिजप्रायो गो गोपुच्छाकृतिजायते अस्तादिशल्यैरन्यैश्च विद्धे चैवो दरे तथा पच्यते यकृदादिश्च तच्छिद्रैश्च आमये आमयवदि तदोल्पाल्पश्चकृद्रः सह स्याद्विकृतगन्धोऽपि पिच्छिलप्पिदलोहितः शेषा जठरंघोरभ वर्धदे तदधो नाभेराशु चलात्मदा उद्रिकृते दोष रूपे चाप्ते च श्वा शुभ्रमे छिद्रोदरद प्रापरस्रीदि चाबरे प्रवृत्तस्नेहपाने दे सहसा पद्यसेविनः अत्यम्बुपानान् मन्दाग्ने क्षीणस्यादिकृशस्य च रुद्धस्वमार्गादनिलकफश्च जलमूर्च्छितः वर्धतेतु तवेवाम्बुतन्मात्राद्विन्दुराशिदः तत्कोपादुदरम् तृष्णागुतस्नुदिरुजान्विधं पाशश्वस्वारुचियुधं नानावर्णाशिरातदं तोयपूर्णान्मृदुस्पर्शात् सदृशो भवेपधु भगोदरं स्थिरसंस्थि भगोदरं स्थिरं स्निग्धं नाडीमावृत्य जायते उपेक्षायाञ्च सर्वेषां स्वस्थानां परिचालिताः पाकाद्रवाद्रवीकुर्युः सन्धिस्रोतो मुखान्यपि स्वेदे चैव तु समृद्धे मूर्छिताश्चान्तरस्थिताः तदेवोदरमापूर्य कुर्यादुदरामयम् गुरूदरं स्थितं वृत्तमाहतञ्चन शब्दहृदहीनबलं तथा कोरं नाड्यां स्पृष्ठञ्च सपदि शिरान्दर्धानमुदरे सर्वलक्षणमुच्यते वादपित्तकपप्लीह सन्निपादोदकोदरम् पक्षाच्चजातसलिलम् दिष्टम्भो भद्रवान्विदन् जन्म नैवोदरं सर्वं प्रायकृच्छ्रतमं मदम् इति श्रीकारूडे महापुराणे पूर्वखण्डे प्रथमां शाक्ये आचार्यकाण्डे एकषष्ट्यधिकशततमोऽध्यायः ओ अध्यायम् 162. अण्ड् सिक्स्टि टु धन्वन्तरिरुवाच पाण्डुशोधनिदानञ्ज शृणु पित्तप्रधाना कुपिता यथोक्तैकोपनैर्मलाः नत्रानिलेन बलिना क्षिप्ताक्षिप्तं यदि धर्मर्दशमि प्राप्य व्याप्नुवन् सकलां तनुं त्वगसृ स्लेश्ममांसानि प्रदूष्यन् रसमाश्रितं त्वङ्मांसयोस्तु कुरुते त्वजि वर्णान् पृथग्विधान् स्वयं हरिद्राहारिद्रं पाण्डुत्वं तेषु चाधिकम् यातोऽयं प्रहदेदुग्रसरोगस्तेन गौरवं धातूनां स्पर्शैथिल्य मामजश्च गुणक्षयः ततो कृतमेदोऽस्ति सारस्यात् श्लेन्द्रियः क्षीर्यमाणैरिवाङ्कैस्तुद्रपदाहृदयेन च शूलोक्षिकूटवदनेस्तैमित्यं तत्र लालया हीनतृक्षिशिरद्वेषी शीर्णलोभो हलः मन्दशक्तिर्ज्वरी श्वासि कर्णशूली तथा भ्रमी स पञ्चधा हृथग्दोषै समस्तैर्मृत्तिकादनाद प्रागूपमस्य हृदयस्पन्दनं रूक्षदा त्वजि अरुचिपीतमुत्रत्व स्वेदाभावोल्पमृत्रदा मेधसमानिल तत्र गाढरुक्लेदगात्रता कृष्णे क्षणम् कृष्ण शिरानखविन्मोत्रनेत्रता शोधो नासास्य वैरस्यम् वृक्षोषः पार्श्वमूर्च्छना पित्ते हरितपित्ताभः शिरादिषुज्वरस्तमः तृच्छोषमूर्च्छा दौर्गन्ध्यं शीदेच्छ कडुवक्रदा विड्ढेदश्चाम्लकोदाहकफाश्च हृदयार्द्रता तन्द्रालवणवक्रत्वं रोम हर्षस्वरक्षयः आशच्छर्दिश्च निचयान्नष्टलिङ्गो दिदुस्सह उत्कृष्टे निलपितभ्य कडुर्वा मधुरकभः दूषयित्वावसादींश्च विमोक्षणं। श्रोतसां संक्षयं कुर्यादनुरुभ्य च पूर्ववद पाण्डुरोगे क्षये जादे नाभिपादास्य मेहनम् पुरीषं कृमिवन्मुञ्जेद्भिन्नं शास्त्रं कभान्वितम् यत्पित्तरोगीसेवेदपित्तलं तस्य कामलं कोष्ठशाखोद्गतं पित्तं दग्ध्वा श्रृङ्मां समाहरेद हारिद्रमूत्रनेत्रत्वं मुखं रक्तं सकृत्तथा दाही विपाकतृष्णावान्धे का भो दुर्बलेन्द्रियः भवेत्पित्तानुगत् शोधपाण्डुरोगावृतस्य च उपेक्षया च शोधाध्या सकृच्छ्रा हरितस्यामपित्तत्वे पाण्डुलोगो यदा भवेद वादपित्ते भ्रमस्तृष्णास्त्रीषु हर्षो मृदुज्वरः तन्द्रावाचानलभ्रंशस्तं वदन्ति हलीमकम् आलस्यञ्चादिभवति तेषाम् पूर्वमुपद्रवः शोधप्रधानः कथितः स एवादो निगद्यते पितरक्तकफान्वायुर्दुष्टो दुष्टान्बहिः शिराः नित्वारुद्धगदिस्तैर्हि कुर्यात्त्वं मांस संश्रयं उत्सेधं संहतं शोधं तमाहुर्निचया ददः सर्वहेदुविषशैस्तुरूपभेदान्नवात्मकं दोषै पृथग्विधै सर्वैरभिखादाद्विषादपि तदेव नीयमानन्दुसर्वाङ्गे कामजं भवेद पृथून्नताग्रग्रथितैर्विशेषैश्च त्रिधा विदुः सामान्यहेदुशोधानां दोषजादो विशेषतः व्याधिकर्मोपवासाधिक्षीणस्य भवति द्रुतम् अधिमात्रं यदा सेवे गुरुमत्यन्तशीतलं लवणक्षारतीक्ष्णाम्ल रोधो वेगस्य शागाम्बुस्वप्नजागरम् रोधोवेगस्य वल्लूरमजीर्णश्रममैथुनं पच्यते मार्गगमनं यानेन क्षोभिणापि वा श्वासकाशादिसारार्शो जठरप्रदरज्वराः विष्टम्भालस्य कच्छर्दि हि का पाण्डुविसर्पकम् ऊर्ध्वशोधमधोभस्तौ मध्ये कुर्वन्ति मध्यगाः सर्वाङ्गगः सर्वगतप्रत्यप्रत्यगेदि तदाश्रयः तत्पूर्वरूपं क्षवधुःशिरायामङ्गगौरवम् च्छोदचलो रूक्षखररो मारुणोसिदः शङ्कभस्त्यन्तशोभर्ति मेधो भेदा प्रसुप्तिदा वादोत्थानक्लमशीघ्रमुन्नमेत्पीडिदां तनुम् सिग्धस्तुमर्धनै शाम्ये दिवा महान् र्षपविलिप्ते च तस्मिंश्चिं पितरक्दासिं ता धासपित्तश्च शोषकृद शीघ्रं न स वा प्रशमेन्मध्ये प्राग् दहदेतनुम् सकृडाहज्वरस्वेदो भ्रमक्लोदमब्रमः साभिलाशीषकृधेदो गन्धस्पर्शसहो मृदुः कण्डोमान् पाण्डुरोमा त्वकठिनशीतलो गुरुः स्निग्धश्लक्ष्मस्थिरशूलो निद्रा चद्यग्निमान्द्यकृद आकादेन च शस्त्रादिचेदभेदक्षदादिभिः इमानिलैर्दध्यनिलैर्भल्लादः कपिकश्चब्जैः प्रस्तैशुष्कैश्च संस्पर्शश्वयधुश्च द्विसर्पवान् भृश्योष्मालोकिताभासत् प्रायश्च पित्तलक्षणः विषजसविषप्राणि परिसर्पणमूत्रणादंष्ट्रा दन्दनका दविषप्राणिनामपि विण्मूत्र शुक्रोपहतमलवध्वस्तु सङ्कराद विषवृक्षानिलस्पर्शाद्गरयोगावचूर्णनाद मृदुश्चलो वलम्बीजशिखरो दाहुरुजाकरः नवोऽनुपद्रवशोधसाध्यो साध्यः पुरोरितः पुरेरितः इति श्रीकारूढे महापुराणे आचारकाण्डे पाण्डुसोधनिदानं नाम द्विषष्ट्यधिकशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् सिक्स्टि त्रि विसर्पादिनिदानन्ते वक्ष्ये सुश्रुत तच्छृणु स्याद्विसर्पो विखाता तु दोषैर्दुष्टैश्च शोधवद अधिष्ठानञ्च तं प्राहुर्बाह्यं तत्र भयाच्छ्रमाद यथा तरञ्च दुःसाध्यस्तत्र दोषो यथा यथं प्रकोपनैप्रकोपिता विशेषेण विदाहिभिः देहे शीघ्रं विशन्दीहतेन्दरे स्थिता बहिः तृष्णाभियोगाद्वेगानां विषमाच्च प्रवर्धनाद आशु चाग्निबलभ्रं शादो बाह्यं विसर्पयेद तत्र वीसर्पो वादज्वर वादज्वरसमभ्यधः निस्तोद भेदाया सार्तिहर्षवान् पित्ता द्रुतगतिपित्तज्वरलिङ्गोदिलोहितः कपात् कण्डुयुतस्निग्धकपज्वरसमानरुकसन्निपातसमुद्धाश्च सर्वलिङ्गसमन्विताः स्व दोषलिङ्गैश्चीयन्ते सर्वैः स्फोटैरुपेक्षिताः तेऽपि स्वेदान्विमुञ्चति बिभ्रतो व्रणलक्षणम् वादपित्ताज्वरच्छर्दि मूर्च्छादी सारतृभ्रमैः गन्धिभेदाग्नि सादनतमकारो च कैर्युदः करोति सर्वमङ्गं च दीप्ताङ्गारावकीर्णवद यं यं विसर्पदि भवेत् स सः नीलो रक्तो वा सुचीयते अग्निदग्धयिव स्फोटायि शीघ्रगत्वा द्रुतं स च मर्मानुसारी विसर्पस्याद्वादोदिबलस्ततः व्यथतेऽङ्गं हरेत् संज्ञां निद्रां च श्वाः समीरयेत् हि काञ्च सगतो वस्तामीदृशीं लभते नरः क्वचिन् मर्मारदिग्रस्तो भूमिशय्यासनादिषु चेष्टमानस्तदक्लुष्टो मनो देहप्रमोहवान् दुष्प्रबोधोऽश्नुदे निद्रांसोऽ सर्प उच्यधे कफेन रुद्रपवनो भित्वा दम्बहुधा कभम् रक्तं वा वृद्धरक्तस्य त्वचिरास्नायु मां सघं दूषयित्वा दुदीर्घानुवृत्तस्थूलकरात्मिकां ग्रन्थीनां गुरुदेमालां सरक्तान् तीव्ररुज्ज्वरां श्वासकाशाभिसारास्य शोषहि कावमिभ्रमैः मोह वैर्वर्ण्यमूर्च्छाङ्गभङ्गग्ने सदनैर्युदं इत्ययं ग्रन्थिविसर्पकपमारुतकोपजः कपपित्ताज्वरस्तम्भो निद्रा तन्द्राशिरोरु अङ्गावसादविक्षेम्पौ प्रलापारोचकभ्रमाः मूर्च्छाग्निहानिर्भेदोत्स्नां पिपासेन्द्रियगौरवम् आमोपवेशनं लेपस्रोतसां स च सर्पदि प्रायेणामाश्रयं गृह्णन्नेकदेशं न चादिरुकपीडकैरवकीर्णोदि पीतलोहितपाण्डुरैः स्निध्नो सितो मे च काभो मलिनः शोधवान् गुरुः पक्वच्छीर्णमांसश्च स्पष्टस्नायुशिरागणः सर्वगोलक्षणै सर्वे सर्वत्वक सर्वगत्वक्समर्पणः शवगन्धीजविसर्पकर्दमाख्यमुशन्दितम् बाह्यफेदोः क्षदाक्रुद्ध्वस् सरकृतं पित्तमीरयन् विसर्पमारुदकुर्यात्कुलस्थसदृशैश्चिदं स्फोडैः शोधज्वररुजा दाहाढ्यं श्यावशोणितं पदग्दोषैस्त्रयसाध्या द्वन्द्वजाश्चानुपद्रवाः साध्याकृत सर्वोद्ध सर्वे चाक्रान्तमर्मणः शीर्णस्नायुशिरां साक्लिन्नाश्च क्लिन्नाश्च शवगन्धयः इति श्रीबारूढे महापुराणे आचारकाण्डे विसर्पनिदानं नाम त्रिपष्ट्यधिकशततमोऽध्यायः ओ अध्यायम् हण्ड्रेड् अण्ड् सिक्स्टि फोर् मिथ्याहारविहारेण विशेषेण विरोधिना साधुनिन्दा वधाद्युद्धहरणाद्यैश्च सेवितैः पाप्मभिकर्म सद्य प्राक्त नैः प्रेरितामलाः शिराप्रपद्यतैर्युक्तास्त्वग्साररक्तमामिषम् दूषयन्ति च संशोष्य निश्चरन्तस्ततो बहिः त्वच कुर्वान्ति वैवर्ण्यम् शिष्टाकुष्ठमुषन्दितम् कालेनोपेक्षितं यत्स्यात्सर्वं कोष्ठानि तद्वभुः प्रपद्य धातून् बाह्यान्धसर्वान् संक्लेद्य चावहेद सस्वेद क्लेद सङ्कोचान्कृमीन् सूक्ष्मांश्च दारुणान् लोकत्वक्स्नायुधमनीराक्रामदि यथाक्रमम् भस्माचादिदवत्कुर्याद्बाह्यम् कुष्ठमुदाहृदम् कुष्ठानि सप्तधा दोषैः पृथग्द्वन्द्वै समागतैः सर्वेष्वपितृदोषेषु व्यपदेशोऽधिकस्ततः वादेन कुष्ठं कापालं पित्तेन औदुम्बरं कभाद मण्डलाख्यं विचर्चोच ऋष्याख्यं वादपित्तजं चर्मकैककुष्ठं का किडिमं सिद्ध्माल स विपादिकाः वादश्लेषमोद्भवाश्लेष्म पित्रा ददृश्यदा ऋषी पुण्डरीकं सविस्फोटं पामा चर्मदलं तथा सर्वेभ्यः काकणं पूर्वत्रिकं ददृशकाकणं पुण्डरीकर्यजिह्वेजमहाकुष्ठानि सप्तदु अधिश्लक्ष्णघरस्पर्शस्वेदास्वेदविवर्णदाः दाहकण्डुस्त्वजिस्वापस्तोधकोचोन्नतिस्मतदः व्रणानामधिकं शूलं शीक्रोत्पत्तिश्चिरस्थितिः रूढानामभिरुक्षत्वं निमित्तेऽल्पेधिगोपनम् जो चोमहर्षोसृजकार्ष्ण्यं कुष्ठलक्षणमग्रजम् कृष्णारुणकपालाभं यद्रूक्षं परुषं तनु विस्तृताकृति पर्यष्टं दूषितैर्लोमभिश्चिदम् कापालं तोदबहुलं तत्कुष्ठं विषमं स्मृतम् उदुम्बर उदुम्बरफलाभासं कुष्ठमौदुम्बरं वदेद वर्दुलं बहुलगेत्युक्तं दाहरुजाधिकम् असं चन्नमधरणं कृमिव स्यादुदुम्बरं स्थिरं सत्यानं गुरुस्निग्धं श्वेतरकृतं मलान्वितम् अन्योन्यसक्तून बहु कण्डू स्नुतिक्रमी श्लक्ष्णपिताभा संयुक्तम् मण्डलम् परिकीर्तितं सकण्डूपीडिका श्यावासक्लेदा च विचर्चिका परुषन् तत्र रक्तान्तमन्तश्यामं समुन्नतम् ऋष्यजिह्वाकृतिप्रोक्तम् ऋष्यजिह्वम् बहु कृमि हस्ति चर्मकरस्परिष्यं चर्माख्यं कुष्ठमुच्यते अश्वेदञ्च मत्स्य शल्कसन्निभम् किडिमम् पुनः रूक्षाग्निवर्णं दुःस्पर्शम् कण्डोमत्परुशासितम् अन्तारुक्षं बहिस्निग्धमन्तर्घृष्टं रजकिरेद श्लक्ष्णस्पर्शं तनुस्निग्धं स्वच्छमस्वेदपुष्पवद प्रायेण चोर्ध्वकार्श्यं च कुण्ढै कण्डूपरैश्चिदं रक्तैरलं शुकापाणि पादे कुर्याद्विपादिका ीव्रातिं गाढकण्डूञ्च सरागपीडिकाचिदं दीर्घप्रदानदुर्वावदसि कुसुमच्छवी उच्चूनमण्डलो दधृक् कण्ठू मानिधि कभ्यदे स्थूलमूलं सदा हर्ति रक्तस्रावं बह व्रणम् सादः क्लेदरुजं प्रायश सर्वजन्म च रक्ताक्तकृतमण्डलं पाण्डु पण्डूदाहरुजान्वितं सोत्सेधमाजितं रक्तै तञ्च पर्णमिवाम्बुभिः पुण्डरीकम् भवेत्तधिचितं सोढै सिदारुणैः विस्फोटपीडिका पामा कण्डुक्लेदरुजान्विदाः सूक्ष्माश्यामारुणारुक्षा प्राय स्फिक्पाणिकूर्परे सस्फोटसस्पर्शसहं कण्डूरक्तादिदाहवद्रकृतदलं चर्मदलं काकणम् तीव्रदाहरुक पूर्वरक्तञ्च कृष्णञ्च कागणं त्रिफलोपमं कृष्णलिङ्गैर्युदै सर्वैः स्वस्वकारणदो भवेद दोषभेदाय विहितैरादिशेल्लिङ्गकर्मभिः कुष्टस्वदोषानुगतं सर्वदोषगदं त्यजेद कुष्ठोक्तं यच्च यच्च अस्ति यच्चास्ति मज्जाशुक्रसमाश्रयं कृच्छ्रं मेदो मदं चैवयाभ्यं स्नात्वास्ति मांसगम् अकृच्छ्रं कपवादोद्धं त्वग्गदं त्वमलञ्च यद तत्र त्वजिस्थिते कष्टे काये वैवर्ण्यरूक्षादा स्वेदता पश्वयथ वश्योनिदे पिशिदे पुनः पाणिपादा श्रिता स्फोटा क्लेशात् सन्धिषु चाधिकम् दोषस्याभीक्ष्णयोगेन दलनं स्याच्छमेतसि नादिसप्स्ति मज्जास्ति नेत्र वेगस्वरक्ष्यः क्षते च स्वदारपत्यबान्धनं यथा पूर्वाणि सर्वाणि स्वलिङ्गानि मृगादिषु कष्टैकसम्भवं चित्रं किलासं दारुणं भवेद निर्दिष्टमपरिस्त्रावित्रिधादु भवसं ता ताम्रं कमलपत्रवद सदाहं रोम विध्वंसि कफाच्वेदं खनगुरु सकण्डूरं क्रमाद्रकृमांसमे दुःसुचाधिषेद वर्णेनैवेदृगुभयं ऋष्रं तच्चोत्तरोत्तरम् अशुक्लरोम बहुल मसंशिष्टं मिथोनवम् अनग्नि दग्धजं साध्यं श्वित्रं वर्ज्यमदोऽन्यथा गुह्यपाणितलौष्टेषु जातमप्यचिरन्तरं वर्जनीयं विशेषेण गिलासं सिद्धिमिच्छिदा सेवनात् स्पर्षैकाहारसङ्घादिसेवनाप्रायशोगदाः एकशय्यासनाच्चैव वस्त्रमाल्यानुलेपनात् इति श्रीगारुडे महापुराणे आचारकाण्डे कुष्ठरोगनिधाननाम चतुष्षष्ट्युत्तरशततमोऽध्यायः अध्यायम् हण्ड्रेड् अण्ड् सिक्स्टि फैव् धन्वन्तरिरुवाच कृमयश्च द्विधा प्रोक्ता बाह्यभ्यन्तरभेदः बहिर्मलकः नामदो चतुर्विधाः बाह्यास्तत्र मलोद्भवाः तिलप्रमाणसंस्थानवर्णा केशाम्बराश्रयाः बहु पादाश्च सूक्ष्माश्च यूकालिक्षाश्च नामदः द्विधादेकोष्ठपीटिका कण्डोगण्डान् प्रकुर्वदे कुष्ठैकः हे दवोन्तर्जाश्लेष्मजा बाह्यसम्भवाः मधुरान्न गुडक्षीरदधि मत्स्यनवौ दनैः कभादामाश्रये जादा सर्पन्ति सर्वदाुव्रध्ननिभा केजित् के जिद्गण्डूपदोपमाः के रूडधान्याङ्गुराकारास्तनुदीर्घास्त धाणवः श्वेतास्ताम्रावभासाश्च नाम दसप्तधातुदे अन्ध्रादा उदरावेष्टा हृदयादा महागुदः चिरवो दर्भकुसुमा सुगन्धास्ते जकुर्वदे हृल्लासमास्य श्रवणमविपागमरोचकम् मूर्च्छा छर्दि ज्वरानाह कार्श्यक्षवधु पीनसान् रक्तवाकिशिरास्तानरक्तजाजन्दवोणवः अपादावृत्तताम्राश्च सौक्ष्म्या केजिदर्शनाः केशादारो म विध्वंसारो म द्वीपा उदुम्बराः षट्टे कुष्टैकपर्माणः सह सौरः समातरः पक्वाश्रये पुरीशोद्धा जायन्देधो विसर्पिणः वृद्धास्ते स्युर्भवेयुश्च गार तदा स्योद्गारनिःस्वामविगन्धानुविधायिनः पृथुवृत्ततनुस्थूलाश्यावबीदसिदासिदः ते पञ्चनाम्ना प्रिमह्यक्केरुकमकेरुकाः सौ सुरादा स शूल्या सशूलाख्या ललिका जनयन्तिः वङ्भेदशूलविष्टम्बकार्श्य पारुष्य पाण्डुताः सदनं गुदकण्डों विमार्गकाः इति श्रीकारूढे महापुराणे चारकाण्डे कृमिनिदाननम् नाम पञ्चषष्ट्यधिकशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् सिक्स्टि सिक्स् धन्वन्तरिरुवाच वादव्याधिनिदानम् ते वक्ष्ये सुश्रुततच्छृणु सर्वधानार्थकथने विघ्न एव च कारणम् अदृष्टदुष्टपवनशरीरमविशेषदः स विश्वकर्मा विश्वात्मा विश्वरूपप्रजापदिः स्रष्टादा विभुर्विष्णुः संहर्ता मृत्युरन्तकः तद्वदुःखतं च यत्नेन यदि तव्यमदः सदा तस्योक्ते दोषविज्ञाने कर्म प्राकृतवैकृतं समासव्यासदोषभेदानामवधार्य च प्रत्येकं पञ्चधा वीरो व्यापारश्चेह वैकृतः तस्यो ्यते विभागेन सनिधानं सलक्षणं लक्षणम् दादुक्षयकरैर्वायुक्रुद्धो नादिनिषेव्यते चतुस्नादोऽवकाशेषु भूयस्तन्येव पूरयेत् तेभ्यस्तु दोषपूर्णेभ्य प्राच्छाद्यविवरं तदः तव वायुः मलरोधं स्वरभ्रंशं दृष्टि पृष्टकटिग्रहं करोत्येव पुनकाये कृच्छानन्यानुपद्रवान् आमाशयोद्धवमधुश्वासकासविषूचिकः कण्डूपरोधकर्मादिव्याधीनूर्ध्वञ्चनाभिधः श्रोत्रादीन्द्रियबाधाम् च त्वजि स्फोटनरुक्षताम् चक्रेतीव्ररुजाश्वासगरामयविवर्णताः अन्ध्रस्यान्तम् च विष्टम्भरुचिरम् अन्ध्रस्यान्तश्च विष्टम्भमरुचिम् कृषदाम् भ्रमम् मांसमेधोगदग्रन्थिं चर्मादागुपतर्कशम् गुर्वङ्गन्धुध्यदेत्यर्थं दण्डमुष्टिहदं यथा अस्ति तत्सी सन्ध्यस्तिशूलं तीव्रं चलक्षयेद मज्जस्थोऽस्तिषु चास्थैर्यमस्वप्नं यत्तदा रुजाम् शुक्रस्य शीघ्रमुत्सङ्गसर्गान्विकृतिमेव वा तत्तद्गर्भस्थशुक्रस्तशिरस्यात्मान ऋदातां तत्रस्थानस्थितः पुर्याकृतश्वयधु कृच्छ्रतां जलपूर्णधृतिस्पर्शं शोषं सन्धिगतोऽनिलभ सर्वाङ्गसंश्रयस्तोदभेदस्फुरणभञ्जनं स्कम्भनाक्षेपणं स्वप्नसन्धिभञ्जनकम्पनं यदा दुधमनी क्रुद्धोभ्येदि मुहुर्मुहुः तदाङ्गमाक्षिपत्ये अध प्रदिहतो वायुर्वज यदा पुनः तदा वष्टभ्यहृदयं शिरः शङ्खौ च पीडयेद सक्षिपेत् परितो गात्रं हनुं वाचास्य नाम कूजेश्च निःसङ्गः सोपतन्त्रकः स एव वामना सायं युक्तस्तु मरुदाहृदि प्राप्नोति च मुहुःस्वास्थ्यं मुहुरस्वास्थ्यवान्भवेद अभिघातसमुद्धश्च दुश्चिकित्स्यतमो मदः श्वेतस्तम्भम् तदा तस्य वायुश्चिन्नतनुर्यदा व्याप्नोति सकलं देहं यत्र चायाम्यदे पुनः अन्धर्धान्दुगतश्चैव वेगस्तम्भं च नेत्रयोः करोति जृम्भां सदनं दशनानाम् अदोद्यमं पार्श्वयोर्वेदनां बाह्याम् हनुपृष्टशिरोग्रहम् देहस्य बहिरायामं पृष्ठदो हृदये शिरः उरश्चोत्क्षिप्यते तत्र स्कन्दो वा नाम्यदे तदा दन्देष्वस्य च वैवर्ण्यं ह्यः स्वेदस्तत्र गात्रतः ब्रवदेवादरोगिणम् विण्मोत्रमसृजम् प्राप्य ससमीरसमीरणाः आयच्छन्ति तनोर्देशाः सर्वमापादमस्तकं तिष्ठधपाण्डुमात्रस्य व्रणायामः सुवर्धितः गात्रवेगे भवेत्स्वास्थ्यं सर्वेष्वाक्षेपणेन तद् जिह्वा विलेखनादुष्णभक्षणा दधिमानदः कुपितोहनुमूलस्तम्भयित्वानिलोहनुं करोधिविवृतास्य त्वमधवा संवृतास्य ताम् हनस्तम्भः स तेन स्याकृच्छ्रा चर्वणभाषणं वाग्वादिनी शिरास्तम्भो जिह्वां स्तम्भयदे निलः जिह्वास्तम्भः सतेनान्नपानवाक्येष्वनीषदा शिरसाभारहरणादधिहास्य प्रभाषणाद च कठिनानां वायुर्विवर्धते तैश्च वधूलैरूर्ध्वमास्थितः वक्रीकरोति वक्रं चह्युच्चैर्ससितमीक्षितं ततोऽस्य कुरुते मृद्वीं वाक्शक्तिं स्तब्धनेत्रदां दन्तचालं स्वरभ्रंशश्रुति हानीक्षितग्रसौ गन्धाज्ञानं स्मृतिध्वं श्वः सश्वासश्च जायते निष्ठीव पार्श्वतोदश्च्ये कास्याक्ष्णो निमीलनं जत्रोर्ध्वं मृजस्तीव्रशरीरार्धतरोऽपि रक्तमाश्रित्य च शिरा कुर्यान्मूर्धरा शिराः रोक्षः स वेदनकृष्णः सो साध्यस्याच्चिरोग्रहः तनुम् गृहीत्वा वा युश्च स्ना युस्तथैव च पक्षमन्यन्तरं हन्तिपक्षा कृष्णस्य कायस्य अर्धं स्यात् कर्मण्यमचेतनम् एकाङ्करो गतां केचिदन्ये कक्षरुजां विदुः सर्वाङ्गरोधस्तम्भश्च सर्वकायाश्रुते निले शुद्धवातकृतपक्षकृच्छ्रः साध्यतमोमदः कृच्छ्रश्चान्येन विवृद्धः क्षयहेतुकः आमबद्धाय न कुर्याः संस्तंभ्याङ्गं कभान्विदः असाध्य एव सर्वो हि भवेदण्डापतानकः अंसमूलोद्धितो वायुशिरा सङ्कुच्य तत्र बहि प्रश्यन्तितः परं जनयत्येव बाहुकं फलं प्रत्यङ्गुलीनां ह्यः कण्ठरा बाहुपृष्ठदः बाह्वो कर्मक्षयकरी विपूजीवेदि सोच्यते वायुक्कट्या श्रुतस्कन्धन वायुक्कट्याश्रुद्ध वा सक्धन कण्डरामाक्षैपेद्यदा तदा कञ्जो भवेजन्तु पङ्गुसघ्नार्द्वयोर्वधाद कम्पदे गमनारम्भे कञ्चन्निवज गच्छति कलाय कञ्चं तं विद्यान्मुक्तसन्धिप्रबन्धनं शीतोष्णद्रवसंशुष्क गुरुस्निग्धश्च सेवितैः जीर्णाजीर्णे तथा यासक्षोभस्निग्धप्रजागरैः श्लेक्ष्मभेदसमये परमप्यर्थसंहितम् अभिभूयेतरं दोषं शरीरं प्रतिपद्यते शक्त्यस्ति निप्रपूर्यान्तः श्लेक्ष्मणा स्तम्भितेन तद तथास्ति स्नादि तेनोरोस्तथा शीतानिलेन तंद्रा श्यामाङ्गमङ्गस्तैमित्यतन्द्रा मूर्छा रुचिज्वरैः तमूरुस्तम्भमित्याह बाह्यवादमधापरि वादशोणितसंशोधो जानुमध्ये महारुजः ज्ञेयक्रोष्टुग शीर्षस्तु स्तूलक्रोष्टुकशीर्षवद रुक्पादविषमन्यस्ते श्रमाद्वाजाय दे यदा वादेन गुल्फमाक्षित्य तमाहुर्वादकण्डकं पार्ष्णिप्रत्यङ्गुलीनाभौ कण्ठे वा मारुदार्दिते सदिक्षेपम् निगृह्णादिगृध्रीं तां प्रचक्षदे हृष्येते चरणव्यस्य भवेदां चापि सुप्तकौ पादहर्षः स विज्ञेयकफमारुतकोपजः पादयो कुरु देदाकम्पित्ताशृक्सहितोऽनिलः विशेषतस्त चङ्क्रमदपाददाकं समादिशेद इति गारूडे महापुराणे आचारकाण्डे वादव्याधिनिधनं नाम षड्षष्ट्यधिकशततमोऽध्यायः ओ गरुडपुराणम् आचारकाण्डम् अध्यायम् 167 अण्ड् सिक्स्टि सेवेन् धन्वन्तरीरुवाच वादरक्तनिदानं ते वक्ष्ये सुश्रुततच्छृणु विरुद्धाध्यशन क्रोधदिवा स्वप्नप्रजागरैः प्रायश सुकुमाराणाम् मिथ्याहारविहारिणां स्थूलानां सुखिनां चापि कुप्यदे वादशोनितम् अग्निकादादशुद्धश्च नृणामसृजिदूषिते वादलैशीतलैर्वायुर्वृद्धक्रुद्धो विमार्गतः तादृशैवासृजारुद्धप्राकृदैव प्रदूषयेद तथा वादो गुदे पीडां बला संवादशोणिदम् संस्तभ्यजनयेत्पूर्वं पश्चात् सर्वत्र धावधि विशेषाद्वमनाद्यैश्च प्रलम्बस्तस्य लक्षणम् भविष्यदकुष्ठसमं तथा साम्बुदसंज्ञकं जानुजं खोरुकट्यं सहस्तपादाङ्गसन्धिषु कण्डुस्फुरणनिस्तोदभेदगौरवसुप्तदाः भूत्वा भूत्वा प्रशाम्यन्ति मुहुराविर्भवन्ति च पादयोर्मूलमास्ताय कदाचिद्धस्तयोरपि आखोरिव विलं क्रुद्धकृत्स्नं देहं विधावति त्वं मां साश्रयमत्तानं तत्पूर्वं जायते ततः कालान्तरेण गम्भीरं सर्वधादूनभिद्रवेद कट्यादि संयतस्थाने म्यश्रावलोकिताः श्वयधुर्ग्रथितपागस वायुश्चाष्टिमज्जसु चिन्तन्निव चरत्यन्तश्चिकी कुर्वंश्च वेगवान् करोति सर्वतश्चरन् पादाधिक्येऽधिकं तत्र शूलस्फुरणभञ्जनं शोधस्य रौक्ष्यं कृष्णत्वं स्यावता वृद्धिहानयः धमन्यङ्गुलिसन्धीनां सङ्कोचोऽ ग्रहो तिरुक शीतद्वेषानुपशयौ